अस्तु वयम् आरम्भं कुर्मः अद्य गीतासोपानं प्रथमं भागं तस्य विषयस्य द्वितीयः सत्यम् हा इदानीं किं कुर्मः प्रथमतः तु प्रार्थनया आरम्भं कुर्मः एकनिमिषम् वीणा भगिनी भवती पतति हा भगिनी अवश्यं करिष्यामि प्रार्थया किं दृश्यते हा भगिनी दृश्यते नमो वस्तुते व्यासाय विशालबुद्धे पुल्लारविन्दाय तपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्सुभिोक्ता दुग्धम् गीतामृतम् महत शान्ताकारम् भुजकशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगि योगीभिर्ध्यानगम्यम् वन्दे विष्णौ भवयहरम् सर्वलोकैकनाथं हरि ओं श्रीकृष्णाय नमः हरि ओं नमो नमः नमो नमः हरि ओं हरि ओं नमस्ते भगिनि अस्तु अद्य दिनस्य एकनिमिषम् अन्नन् कन्नन् भगिनी अद्यदिन अस्माकम् अद्यदिनस्य विषयः अस्ति अजन्ता अजन्ताः शब्दाः इति अजन्ताः शब्दाः किं नाम अजन्तः शब्दाः प्रथमतः तु वयम् अजन्तः शब्दाः के शब्दाः अजन्तः शब्दाः हा वदतु किम् अभवत् न श्रूयते वा सनन्तः अजन्तः वदामि वदामि एकनिमिषं हा प्रथमतः तु अस्माभिः किं करणीयमस्ति तद् वदामि के शब्दाः अजन्तः शब्दाः अनन्तरं द्विवचन हा यतो हि इदानीं प्रथमा विभक्तिः प्रचलति प्रथमाविभक्त्यान्तरूपाणि एकवचनान्तरूपाणि द्विवचनान्तरूपाणि तथैव बहुवचन भौवैचना बहुवचनानि रू, बहुवचनानि रूपाणि अपि सन्ति तत्र अध्ययनं कुर्मः द्विवचनस्य महत्त्वं किमिति हा अनन्तरं सर्वासु भाषासु तत्र द्विवचनान्तरूपाणि नास्ति परन्तु संस्कृते द्विवचनान्तरूपाणि दृश्यन्ति किमर्थं तत् वयं पश्यामः अनन्तरं केचन शब्दाः पुल्लिङ्गिशब्दाः श्रीलिङ्गिशब्दाः श्री नपुसकलिङ्गिशब्दाः श्री पुल्लिङ्गे अकारान्त इकारान्तशब्दाः उकारान्तशब्दाः स्त्रीलिङ्गे आकारान्त इकारान्त ईकारान्तशब्दाः रूकारान्तशब्दाः तथैव नपुसकलिङ्गे अकारान्त इकारान्त तावत् अध्ययनम् <ís> अद्य दिने कुर्मः अनन्तरं एकम श्लोकम् आधारीकृत्य हा गीतासु तत् एकं श्लोकम् आधारीकृत्य तस्य विषये कथाप कथापठनं कुर्मः प्रथमता तु कथायाः पठनं कुर्मः अनन्तरं श्लोक श्लोकस्य अध्ययनं कृत्वा अनन्तरं वयं समापयामः किञ्चित् व्याकरण आदौ किञ्चित् व्याकरण अंशाः वयं पठामः अजन्त अजन्तशब्दा इदानीं जयन्ती भगिनी वदतु किम् उक्तवती अजन्ताः शब्दाः इत्युक्ते न भगिनी अजन्ता इति सनन्तः प्रत्यय इति भवति खलु न सनन्ता इत्युक्ते तत् सन् अन्तौ तत्र धातुरूपमस्ति विशिष्ट इच्छार्थ सन् प्रत्ययान्तशब्दाः सन्ति इत्युक्ते तत्र बुभुक्षा पिपाटा तत्र डब्लिङ्ग् दृश्यते खलु द्वित्वं दृश्यते तत्र तनूपा सी धातु सी सन पर अजंत सरल अच्छ अचार् जकार अजंता पश्यामः mm. अच् इत्युक्ते किम् भवती वदतु अच् इत्युक्ते किम् सर्वे स्वराः अच् भवति खलु भिन्न के के स्वराः वदति hmm. वा अ इ इ ऊन् ए ऐ ओ औ तावदेव सम्यक् सम्यक् अत्र सुलभः प्रकारेण वयं uh, तत्र स्मरणे स्थापयितुं शक्नुमः सुलभः प्रकार कः प्रकार इदानीं पश्यामः सुलभः प्रकारः किञ्चित् व्याकरणांशः अपि वयं पठामः तावदेव अतिसुलभः प्रकार कथमिति पश्यन्तु सर्वे इदानीं राधा भगिनी भवती वदति वा दृश्यते अत्र स्क्रीन् उपरि आं भगिनिसूत्रः अत्र माहेश्वरसूत्राणि इति भवेत् परन्तु तत् हिन्दीभाषायामस्ति अतः तत्र सूत्र एवं लिखितमस्ति परन्तु संस्कृतभाषायां वयं सूत्राणि इति वदामः हा माहेश्वरसूत्राणि कानि सूत्राणि पठति वा अ इ ऊ ऐ च ह त ज ग सह हल धन्यवादः अत्र यथा जयन्ती भगिनी उक्तवती तथैव अ च इत्युक्ते प्रथमं सूत्रं प्रथमं सूत्रं पश्यन्तु सर्वे प्रथमः वर्णः अस्ति अनन्तरम् अ इ उन् तत्र अन्तिमवर्णः अन्तिमवर्णः निष्कासयतु नकार अपगच्छति तत् किमर्थं तत्र इति एकं व्याकरण अंशः अस्ति परन्तु अन्तिमः वर्णः ते अन्तिमवर्णस्य गणना न भवेत् इति अस्ति हा अतः अ इ उ द्वितीयं सूत्रं रुल् रुतीय रू, द्वितीयम् ए ओ चतुर्थम् ऐ औ इत्युक्ते यथा जयन्तीभगिनी उक्तवती अच् इति वदामः आरम्भे अच् स्टार्टिङ्ग् फ्राम् अ प्रथमं सूत्रं स्टार्टिङ्ग् फ्राम् अ चतुर्थं सूत्रं तत्र एण्ड् देट् इस् अच् ओके okay. अत्र लघुत्वं दृश्यते यदा अहं वदामि स्वराः अस्तु अ इ अस्ति रु लु अस्ति ए ओ अस्तु ऐ औ अस्ति न अच् इति वदामः चेत् चित्रं स्पष्टं भवति अच् इत्युक्ते एते सर्वे मरणाः अ इ उ रु लु ए ओ ऐ औ औ अहम् उक्तवती अच् अन्त अजन्त इत्युक्ते येषां शब्दानाम् अ इ ओ रु ए ओ ऐ औ वर्ण अन्तिमवर्णस्वरूपेण आगच्छति येषां शब्दानाम् कृते अच् वर्णः अन्तिमवर्ण अस्ति तेषाम् अजन्ताः शब्दाः इति संज्ञा अच् अन्ते अन्ते अन्तिमः वर्णः मध्ये कुत्रापि आगच्छति तस्य प्रसक्तिः अत्र नास्ति अन्तिमः वर्णः कः भवेत् अ वा इ वा उ वा रू वा लु वा ए वा औ ए ओ ऐ औके सो okay? so, अच् इत्युक्ते अच् यस्य अन्ते अस्ति ते वर्णाः ते शब्दाः अजन्ताः शब्दाः इदानीं स्पष्टमस्ति सर्वेषां मनसि अजन्ता इत्युक्ते किं स्पष्टमस्ति हा अस्तु इदानीं वयं किं कुर्मः सर्वेषां मनसि एकः प्रश्नः ये नूतनतया आरम्भं करोति कुर्वन्ति तेषां मनसि किमर्थं तत् द्विवचनम् आवश्यकम् एकवचनं बहुवचनं तत्तु सम्यक् सिङ्ग्युलर् प्लुरल् तु, तु भवेदेव परन्तु द्विवचन से आवश्यकता किंचि क्लिष्टता वर्तवने सर्वासु भाषासु तिवचना कि संस्कृते शास्त्रद इनम्म अंबिकापतिमय भाई पठती वीन उपरी एक था एकः श्लोकः अस्ति तत् पठति वा षट् कर्णो विद्यते mm. मन्त्रः चतुःकर्णः mm. स्थितो भवेत् द्विकर्मणस्य च मन्त्रस्य ब्रह्माप्यन्तं न गच्छति That which is heard by four ears gets affirmed. Hmm. That which is between the two ears. Even Lord Brahma cannot meet the end of it. It took the Tatra Pratekasyavisheshataka. Huh. So Tatra Shatkarana. Shatkarana it took the six ears, three persons. So that is... getting disclosed when it is heard by six years it gets shattered it to take it gets disclosed parantu tatra agrime gattamassi chatushkarna hero bhavit chatushkarna heard by four years it took take two people then it remains as a secret when it is heard by two years it remains as a secret and then ीकर्णस्य च मन्त्रस्य द्वीकर्णस्य मन्त्रस्य द्विकर्णस्य च मन्त्रस्य तत्र अस्ति ब्रह्मा अपि अन्त न गच्छति ब्रह्मा अपि अन्त न गच्छति दि क्रियेटर् ब्रह्मा इवन् क्रियेटर् केनाट् रीच द एण्ड् आफ् द सीक्रेट् वेन् इट् स्टेस् विदिन् टु इयर्स् देट् इस् वेन् इट् इस् लिमिटेड् टु वन् पर्सन् तत्र महत्त्वं महत्त्वः महत्त्व दृश्यते महत्त्वं दृश्यते द्विकरणस्य चतुष्करणस्य षट्करणस्य इत्युक्ते एकवचनस्य द्विवचनस्य बहुवचनस्य महत्त्वम् अतः तत्र द्विवचनान्तरूपाणि पठितव्यानि एव तत्र किमपि क्लिष्टता नास्ति सुलभः एव पठामः अस्तु अम्बिकापतिमहोदय धन्यवादः अग्रिमे तत्र अजन्तशब्दः इत्युक्ते किं किं पठनीयमस्ति तत् अजन्तशब्दः इत्युक्ते अच् अन्ताशब्दः तद्वयं पठितवन्त। इदानीम् मम प्रश्नः अस्ति पुल्लिङ्गिशब्दाः पुल्लिङ्गि शब्दाः पुल्लिङ्गे शब्देषु वयम् अकारान्तशब्दाः अनन्तरम् इकारान्तशब्दाः उकारान्तशब्दाः ऋकारान्तशब्दाः पठितवन्तः ओके okay, वि प्रथमाविभक्ति फार्म्स् न वट् वीन् टु डु नौ किञ्चित् पुनः स्मारणं लिखित्वा वयं कुर्मः huh? भारतमहोदय भारतमहोदय वक्तुं शक्नोति वा हा, हा? भारतमहोदय भवान् स्मरति वा तत्र पुल्लिङ्गि अकारान्तशब्दः कः अपि शब्दः भवतः मनसि आगच्छति चेत् कृपया स्वीकरोतु पुल्लिङ्गी अकारान्तशब्द तस्य प्रथमाविभक्त्यन्तरूपाणि पयम अत्र लिखामः वदति वा अर्जुनः अर्जुनः द्वितीया किं भवति क्षम्यताम् द्विवचनं किं भवति अर्जुनौ उत्तमं महोदय अर्जुनौ बहुवचनं किं भवति अर्जु अर्जु अर्जुनः उत्तमं महोदय अर्जुनाः उत्तमम् उत्तमम् अस्ति अर्जुनः अस्तु इदानीं भवान् एतत् स्मरति वा इकारान्त ह्रस्व इकारान्तशब्दः गान्धारी न पुल्लिङ्गि शब्दमहोदय स्मरति वा पुल्लिङ्गीकारान्तस्व रस्व इकारान्त ह्रस्वैकारान्तपुल्लिङ्गहं वदामि वा oh, हरिः ओ हरि हरिः इति हस्वैकारान्त तस्य द्विवचनान्तरूपं स्मरति वा um, हरिः हरियो हरि ओ तत्र oh, भवति हरि हरि oh, हरि अनन्तरं बहुवचनान्त भवति हरयः किञ्चित् भिन्नप्रकारे हरिः हरि द्विवचनान्तरूपं हरिः हरि हरयः इदानीम् उकारान्तपुल्लिङ्गीशब्दः तदपि अजन्तशब्दः एव उकारान्तपुल्लिङ्गिशब्दः स्मरति वा उदाहरणार्थम् पश्यतु गुरु इति अस्ति खलु गुरु गुरुः इति गुरुः विसर्ग गुरुः तथैव भवति यथा हरिशब्दस्य दीर्घत्वम् आगच्छति तथैव द्विवचने गुरू इति भवति हा गुरुः गुरू गुरवः गुरवः उ अस्ति चेत् व आगच्छति इ अस्ति चेत् य आगच्छति हा तु यदा वयं वायु इति शब्द स्वीकुर्मः वायुः तदा किं भवति वायुः वायुः वायु वायवः इति भवति उ अस्ति चेत् व भवति सर्वेषु स्थलेषु तथैव तत्र गुरुः गुरु गुरवः गुरुः गुरु गुरु इति गुरवः एकवारं पठति सर्वे शब्दाः यद् वयं लिखितवन्तः अर्जुनः अर्जुनौ अर्जुनाः हरि हरिः हरि हरयः गुरुः गुरु गुरुवः गुरुवः इदानीम् गुरु गुरु अहं तथैव इकारान्तपुल्लिङ्गे शब्दलिखामि कविः रूपाणि वदति वा महोदय कविः कविः कवि कवय कवयः कवयः इतोपि एकं लिखामि मुनिः मुनिः अस्ति चेत् कथं भवति मुनि उत्तमं महोदय उत्तमम् अस्ति हा एवं सर्वमस्ति अकारान्तपुल्लिङ्गि शब्दाः अकारान्तपुल्लिङ्गि अजन्ताः शब्दाः किमस्ति अकारान्तपुल्लिङ्गि अजन्तः शब्दाः इकारान्तपुल्लिङ्गि अजन्तः शब्दाः उकारान्तपुल्लिङ्गि अजन्तः शब्दाः इदानीं स्त्रीलिङ्गि शब्दाः आगस्ट् महोदय भवान् वदति वा ओगस्ट् महोदय लिङ्गि किमपि शब्दनिषिखामि एकवचनान्तरूपं सीता एवं तत्र सीता इति नास्ति सी, सीता द्विवचनं वदति वा सीते उत्तमं महोदय सीता सीते बहुवचनं किं भवति सीता उत्तमम् उत्तमम् अस्ति सीताः इति बहुवचनम् अस्तु इदानीं भवान् इकारान्तस्त्रीलिङ्गे स्म स्मरति वा इकारान्त ह्रस्व इकारान्तस्त्रीलिङ्गीर्घ इकारान्त no, नदी, नदी इति दीर्घ दीर्घ अनन्तरं पश्यामः मत, उत्तमं मतिः मतिः इति प्रथमाविभक्ति एकवचनं मतिः प्रथमाविभक्ति द्विवचनं किं भवति तथैव चलति यथा हरि भवति तथैव मती अनन्तरं बहुवचनं मतयः उत्तमं यथा हरि तथैव मतयः उत्तमम् इदानीम् इकारान्तश्रीलिङ्गी इकारान्तश्रीलिङ्गि किम् दीर्घ आ, नदी इति रूपाणि कथं भवति दीर्घैकारान्त नदी एव वा तत्र नदी इति नदी अनन्तरं नदी नद्यौ उत्तमं नद्यौ दयौ नदी न, न, नदी नद्यौ बहुवचनं नद्यः नद्यः नदीनद्यो नद्यः अस्ति अग्रिमे अस्ति उकारान्तश्रीलिङ्गि उकारान्तश्रीलिङ्गि स्मरति वा भगिनि एकं प्रश्नः अत्र न नद्यौ इत्युक्ते अत्र द महाप्राण वा न द एव त थ दद्यौ इति द एव तस्य दकारस्य धकारे परिवर्तनं मास्तु द एव हा पुनः एकवारं लिखामि वा स्पष्टं नास्ति वा एकनिशं प्रष्ट स्पष्टमस्ति परन्तु अस्माकं प्रश्न आगच्छति हा न दथैव न द्य नदीनद्यौ तत् लायिण्ट्लि भवेत् हा नदीनद्यौ नद्यः इति हा अस्तु विसर्ग अस्ति अनन्तरं हा अस्तु महोदय आमां हा अग्रिमे अवश्यं महोदय उकारान्तश्रीलिङ्गि ह्रत्व उकारान्तश्रीलिङ्गि स्मरति वा धेनुः उत्तमं धेनुः धेनुः इत्युक्ते का महोदय धेनुः अनन्तरं तस्य द्विवचनान्तरूपं धेनु धेनू धेनु इति द्विवचनान्तरूपं धेनुः धेनु बहुवचने धेनुः हा बहुवचने उ आगच्छति चेत् वा आगच्छति गुरु गुरुः okay. गुरो गुरवः तथैव धेनुः अस्तु इदानीम् अन्तिमम् ऊकारान्तश्रीलिङ्गी स्मरति वा ऊकारान्त hmm. श्रीलिङ्गी ba, इत्युक्ते का ब्र, वधू वदु। न तत्र किं भवति उ अस्ति खलु तत्र वध्वौ इति भवति वध्वौ अनन्तरं बहुवचनान्तरूपं वध्वः वधू वध्वौ वध्वः इति भवति उत्तमस्ति महोदय उत्तमस्ति धन्यवादः अस्तु हा जयन्ति भगिनि जयन्ति भगिनि आं भगिनि तत्र इति स्थले द्वितीयमेकं शब्दं स्वीकरोतु आकारान्तस्त्रीलिङ्गि रूपाणि वदतु लता लते लता अस्तु मतिः स्थाने तिथिः इति स्वीकरोतु इकारान्तस्त्रीलिङ्गी किं किं शब्दं वेणी तिथि तिथि तत् अस्माकं ति तिथिः अस्ति खलु प्रतिपदा रीत्या तिथिः थि तिथ्यौ तित तिथयः तिथिः तिथि दीर्घः अस्ति खलु तिथि तिथयः अस्तु अनन्तरं दीर्घ इकारान्तस्थाने भगिनी इति स्वीकरोतु परिचितः शब्दः भगिनी भगिन्यौ भगिन्यः सम्यक् सम्यक् अस्ति उत्तम धन्यवादः अग्रि अग्रिमे यत् कन्नान् कन्नान् भगिनि कन्नान् भगिनि अकारान्त नपुषति लिङ्गशब्दः ज्ञानम् अस्तु उत्तमं ज्ञानम् इति स्वीकुर्मः ज्ञानं ज्ञानं ज्ञाने ज्ञानानि उत्तमं ज्ञानानि इति वनं वने वनानि फलं फले फलानि तावत् ज्ञानं ज्ञाने ज्ञानानि इकारान्तनपुषकलिङ्गशब्द इकारान्तनपुषकलिङ्गशब्दः वदति वा mm, वारि वारि वारि वारीणि एवं खलु वारीणि वारि वारिणि वारीणि अत्र दीर्घ रत् वारि वारिणि वारीणि तथैव वदतु प्रश्नः अस्ति वा प्रश्नः नास्ति खलु इदानीम् उकारान्तपुल्लिङ्गशब्दः तत्र मधु इति उकारान्तपुल् नपुस्तकलिङ्गं नास्ति उकारान्तनपुस्तकलिङ्ग इति सम्यक् मधुनि मधुनी मधुमधूनि अस्ति मधुनि मधूनि उत्तमं मधुनि मधु मधुनी मधूनि उत्तमम् एवं सर्वम् अस्ति अस्माकम् अध्ययनस्य अध्ययनस्य विषयः तत् वयं सर्वे उत्तमप्रकारेण कृतवन्तः एकवारं जालपुटतः पुस्तके यद्दत्तमस्ति तस्य पठनं कुर्मः अनन्तरं वयं कथा कथां प्रति गच्छामः कथा अनन्तरं श्लोकपठनं भवेत् उत्तमम् लघु लघु अंशाः तत्र सन्ति वयं क्रमेण पचामः एतत् अजन्ताहा शब्दाहा शब्दाः अच् अन्ते येषाम् अन्ते अच् अस्ति ते शब्दाहा हा कन्नान् कन्नान् भगिनी पठितवती खलु हा वीणाभगिनी वीणाभगिनी पठति वा अजन्ताः शब्दाः हा, शब्दा हा।, हा पठति अजन्ताः शब्दाः उच्चैः पठत लिखत च एषः कविः एतौ कवी एते कवयः एषः ऋषिः एतौ ऋषि एते ऋषयः में? एषः यति एतौ यति यतिः एषः यतिः अह एषः यतिः अस्तु भगिनी एतौ यति एते यतयः एषः एतौ एते सः तौ ते तथैव अग्रिमं पठतु सः तरुः ते तरु सोरि hmm? oh, तौ तरु ते तरवः इति अस्ति तत्र भनुः एव प्रभु hmm. अग्रिमे पठतु सः प्रभुः तौ प्रभु, प्रभु, hmm? प्रभु... Hmm? प्रभु... Hmm? ते प्रभवः अग्रिमे भवान् योद्धा भवतौ योद्धारौ भवन्त योद्धारः भवान् भोक्ता भवन्तौ भोक्तारौ भवन्तः भोथा, भोक्तारः श्रोतारौ अनन्तरं भवान् श्रोता भवन्तौ श्रोतारौ भवन्तः श्रोतारः बेनी एक आ, एकः एक संशयः योध इति ऋकारान्तपुल्लिङ्गशब्दं खलु सत्यं वदामि अत्र ऋकारान्त अजन्ताः शब्दाः तत्र अच् अन्ता अ इ इ उ उ, ऊ अपि आगच्छति अत्र उदाहरणमस्ति योद्धृ इति शब्दः योद्धृकार अन्तिमः पितृ मातृ योद्धृ स्वसृ hmm. हा अनन्तरमस्ति तत्र भोक्तृ hmm. भोक्तृ श्रोतृ तत्र hmm. प्रथमाव्यक्तिः एकवचनान्तं द्विवचनान्तं बहुवचनान्तं रूपाणि कानि योद्धृ इति मूलशब्दः प्रातिपदिकं प्रातिपदिकम् इत्युक्ते मूलशब्दः विसर्ग वा अन्यप्रत्ययविहितः hmm. तत्र प्रत्ययः नास्ति विसर्गः नास्ति किमपि नास्ति प्रातिपदिकं प्योर् फ़ोर्म् रूट् फार्म् देट् इन्स् योद्धृ मातृ पितृ परन्तु मातृशब्दस्य कृते रूपाणि माता मातरौ मातरः पितृशब्दस्य कृते रूपाणि पिता पिता स्त्रीन् दृश्यते ओके एकनिमिषम् एकनिमिषम् इदानीं दृश्यते इदानीं दृश्यते भगिनी इदानीं दृश्यते दृश्यते दृश्यते हा अस्तु तत् पिता पितरौ पितरः माता मातरौ मातरः परन्तु अत्र किं दृश्यते योद्धा योद्धारौ योद्धारः पिता पितरौ पितरः योद्धा योद्धारौ योद्धारः भोक्ता भोक्तारौ भोक्तारः श्रोता श्रोतारौ श्रोतारः किमर्थम् तत्र मातृपितृस्य कृते माता मातरौ मातरः पितापितरौ पितरः एवम् दृश्यते हाँ तर, इवन त्र भ्राता शब्द से कृते भ्राता भ्राता ब्रदर भ्राता भ्रातरौ भ्रातर दृश्य है परंतु कर्ता कर्ता त्र कर्ता कर्ता दृश्य अस्ट ये शब्द संबंधवाचिन शब्द संबंधवाचिन रिलेशनशिप धवा अस्मा संबंध संबंध, धनिष्ठ सबंध ततरौ मतर पिता पितर पितर भ्रता भ्रातरौ भ्रातर परसारौ स्वचार स्वसारौ स्वार परंतु मातृकते भ्रातृते पितृकते एक सी शब्द, ऋकारान्तपुल्लिङ्गिशब्द ऋकारान्तपुल्लिङ्गिशब्द तेषु अन्तर्भूतः शब्दः अस्ति पितृ भ्रातृ कर्तृ योद्धृ भोक्तृ श्रोतृ एते सर्वे शब्दाः ऋकारान्तपुल्लिङ्गि ऋकारान्तश्रीलिङ्गिशब्दाः ते के अत्र नुकारान्तस्य लिङ्गे प्रथमं तु माता आगच्छति माता मातरौ मातरः अनन्तरं स्वसा स्वसारौ स्वसारः एवमस्ति स्पष्टमस्ति वा, वा प्रश्नाः सन्ति अत्र स्पष्टमस्ति कथं वदनीयं भगिनी सम्बन्धवाचनी शब्दाः सम्बन्धवाचिनशब्दाः शब्दाः तेषां कृते उदाहरणार्थं माता पिता भ्राता एते शब्दाः तेषां कृते रूपपरिवर्तनं कथं भवति माता मातरौ मातरः पिता पितरौ पितरः भ्राता भ्रातरौ भ्रातर पर अोद्धा योद्धारौ योदार कथम संबंध अस्त का अस्केशनशिप अस्त योद्धु कि संबंध नास्त अत भोक्ता भोक्ता मूलत शब्द ऋकारातशब्द वर्णे अन्तर्भूतः अतः एतेषां कृते अत्र रुकारान्तशब्दानाम् एतादृशानि रूपाणि दृश्यन्ति सम्यक् कष्टमस्ति अग्रिमे अग्री पठति अग्री। वा अहं वा भगिनि पुनः एकवारं वदति वा भोक्ता विषये भोक्ता, आ, आ, भोक्ता, भावंत भोक्ता हा भवान् भोक्ता भवन्तौ भोक्तारौ भवन्तः भोक्तारः तत्र भवान् भवन्तौ भवन्तः इति अस्ति यथा सः तौ एषः एतौ एते भवान् भवन्तौ भवन्तौ एवमस्ति अग्रिममपि पठतु यष्टिः एषा यष्टिः एते यष्टी एताः यष्टयः श्रीलिङ्गी इकारान्तम् अनन्तरं तिथि एषा एषा तिथिः एते तिथि एताः तिथयः सम्यक् उत्तममस्ति धन्यवादः भगिनि अग्रिमे हा अग्रिममपि श्रीलिङ्गी अस्ति तत् समापयतु भगिनी सा धेनुः तत् उकारान्त अस्ति तत् हा हा भगिनी हा सा धेनुः ते धेनू ताः धेनवः अग्रिमे सा रज्जा हा उकारान्त अस्ति खलु सा रज्जुः रज्जुः थ्रेड् रज्जुः हा अस्तु भगिनि हा रोप् रज्जुः सा रज्जुः ते रज्जु ताः रज्जवः स्वचा अन्तिमं स्वचा सा स्वसा ते स्वसर् स्वसारौ ताः स्वसारः स्वसार इत्युक्ते किं भगिनी सिस्टर् सिस्टर् अन्ति अन्तिमस्ति नपुषकलिङ्गी तद् वाडियो भगिनी पठति वा बाडिवभगिनी पठति वा पठति नपुषकलिङ्गि एतत् अस्ति एतत् अस्ति अस्ति सम्यक् एत एतत् अक्षी एते अक्षिणी एतानि अक्षिणी अक्षि इत्युक्ते अस्ति अक्षि ऐ डोण्ट् नो ऐज् भगिनि ऐज् अक्षी इत्युक्ते ऐज् अग्रिमे पठति वा ते ज्ञान अग्रिमे अम्बुनो न अम्बु सारि तत् अम्बु अम्बुनि तानि अम्बुनि अम्बु इत्युक्ते किम् अम्बु मीन्स् जलं जलं अम्बु इत्युक्ते hmm. जलं जलं जलं जलं, hmm. जलं।, जलं।, जलं, जलं। hmm. hmm. तत् मधु उत्तमं धन्यवादः भगिनी धन्यवादः अस्तु एतत् सर्वम् अत्र अस्माकं पुस्तके दत्तमस्ति सर्वमस्ति यत् वयं पठितवन्तः अकारान्त इकारान्त् उकारान्त् एतत् सर्वं तत् यदा समयः लभ्यते तत् पठनं कुर्मः नो चेत् इदानीं कथायाः आरम्भं कुर्मः कथावपि भवेत् अनन्तरम् अस्माकम् एकस्य श्लोकस्य कथाम् आधारीकृत्य श्लोकस्य पठनमपि वयं कुर्मः अस्तु दृश्यते दृश्यते भगिनि श्यामलाभगिनी भवती आरम्भं करोति वा उचितम् आचरणम् hmm. उचितम् आचरणम् इति कथायाः hmm. hmm. hmm. कदाचित् कश्चन hmm. कृषिकः बुद्धस्य कार्यक्रमम् आयोजितवान् प्रव hmm. प्रवचनदिने बुद्धस्य उपदेशान् श्रोतुं बहवः जनाः उपस्थिताः किन्तु hmm. सः आयोजकः कृषिकः एव प्रवचनकाले अनुपपस्थितः आसीत् hmm. एतत् ज्ञातवन्तः ग्रा ग्रामजनाः परस्परम् अवदत् अयम् uh -huh. आयोजकः धाम्बि ध धाम्बिकः Mm -hmm. ले स्वयम् अनुपस्थितः सञ्च बुद्धस्य mm -hmm. विषये अगौरवम् अपि प्रदर्शितवान् सः बुद्धस्य mm -hmm. भक्तः एव न इति इत्युक्ते किं स्वशब्दैः प्रयत्नं करोति वा किं दत्तमस्ति एतस्मिन् परिच्छेदे कृषिकः तत्र farmer huh so once upon a time yes ha but there to once upon a time there was a farmer mm hmm uh there was a farmer he was he was working he was so doing service for he was thinking of doing a service बुद्धस्य कार्यक्रमः बुद्धः दृश्यते खलु गौतमबुद्धः तस्य कार्यक्रमः सः आयोजितवान् गौतमबुद्धः प्रीचिङ्ग् भवति प्रवचनं वा तत्र भजनं प्रवचनं आयोजितवान् तत्र किमस्ति प्रवचनदिने बुद्धस्य उपदेशान् श्रोतुं बहवः जनाः उपस्थिताः के उपस्थिताः जनाः मेनि श्रोतुम् श्रोतुमिति तुमुन् प्रत्यय किमर्थं जनाः सम्मिलिताः उपस्थिताः बुद्धस्य उपदेशान् श्रुति बुद्धः mm. उपदिशति जनाः शृण्वन्ति तदा किम् अभवत् किन्तु किन्तु आयोजकः कृषिकः एव प्रवचनकाले अनुपस्थितः आसीत् ओन्ली द फार्मर् वार् आन् दे आफ् प्रीचिङ्ग् हि वास् एन् आर्गनैजर् Absent, okay oh, on ah. that particular day Then what happened yeah. a third can see ah. Mama Batra? Uh, uh, there was a uh, there was few uh, people mm -hmm. uh, They told to themselves mm -hmm. I am I oja kaha dhambi kaha प्रवचनकाले स्वयम् अयम् आयोजकः दाम्भिकः इत्युक्ते एषः कृषकः यः कार्यक्रमम् आयोजितवान् सः दाम्भिकः दम्भयुक्त इत्युक्ते किम् दाम्भिकः इत्युक्ते दाम्भिकः आ... इत्युक्ते मनसि किम् आगच्छति proud or arrogant arrogant by dicey mind it that some number you Claire who would put on a year as an STL I am hearing huh. a Micky a problem general Sharon I प्रवचनकाले स्वयम् अनुपस्थितः सन् सः बुद्धस्य विषये अगौरम् अपि प्रदर्शितवान् इत्युक्ते किं श्यामला भगिनी प्रवच प्रवचनकाले समयः सः एव बुद्धस्य विषये श्रोतुम् इति ग्रामजनाः चिन्ति चिन् अगौरवम् अगौरवम् इति अगौरवम् डिस्रिस्पेक्ट् ओके डिस्रिस्पेक्ट् ओके स्वयम् एव अगौरवं प्रदर्शितवान् तत्र दृश्यते सः बुद्धस्य भक्तः एव न जनाः किं वदति सः बुद्धस्य भक्तः एव न अत्र अनुपस्थितः अभवत् श्रोतुम् न आगतवान् स्वयम् एव तत्र आयोजितवान् सः एव आयोजितवान् परन्तु सः एव श्रोतुं न आगतवान् सः दाम्भिकः सः बुद्धस्य भक्तः एव न सः अभक्तः अस्ति न भक्तः इति जनाः उक्तवन्तः अस्तु सम्यक् उत्तममस्ति भगिनी धन्यवादाः धन्यवादः प्रयत्नं करो, उत्तमम् उत्तमं तथैव प्रयत्नेन एव सर्वं सिद्ध्यति खलु अस्तु जयन्ति भगिनी अस्तु अग्रिमे एतद् बुद्धेन अपि एतद् बुद्धेन अपि श्रुतम् अनन्तरदिने सः सर्वेषां सम्मुके तम आयोजकं ऋषीकं पृष्टवान् एतत् बुद्धस्य अपि मती म, मत्या मते अभवत् मध्या भवति ऐ बुद्धः अपि एतत् एव चिन्तितवन्तः चिन्तितवान् अग्रिमदिने सः सर्वेषां समुखे सर्वेषां समीपे सर्वेषां प्रति तम् आयोजकं ऋषिकम् ऐ योजनार्थं यषिकम् आयोजनं कृतवान् खलु तत् ऋषिकं पृष्टवान् पृच्छ अपृच्छत् भो ह्यः प्रवचनकाले किमर्थम् अनुपस्थितः भवान् इति स्वयं बुद्धः पृच्छ पृष्ट पृष्टवान् भो ऋषिकं ऋषिकं पृष्टवान् भो ह्यः प्रवचनकाले किमर्थम् अनुपस्थितः भवान् इति पृष्टवन्तः पृष्टवान् पृष्टवान् बुद्धः पृष्टवान् तदा सः ऋषिकः अवत् श्रीमन् किं करवाणि इति किं करवाणि इति ऋषिकः प्रति प्रश्न अनु ऐ उत्तरं दत्तवान् ह्यः तत्र तत्र प्रत्यवदत् इति अस्ति प्रति प्रत्यवदत् प्रत्यवदत् ह्यः मम वृषभः नितराम् अस्वस्थः जातः ऐ मीन् ऋषिकस्य ऋषभः वृषभः नितराम् अस्वस्थः अभवत् इति उक्तं वृषभः वृषभं शरीर ऐ मीन् हल्त् वृषभः बुल्स् भगिनि बुल् बुल्स् बुल् कृषिकार्यार्थं खलु न पुल्लिङ्गी अस्ति खलु सन्ति तत्र सः एव नितराम् अद्वृत्तः जातः अग्रिमे गृहचिकित्सा फलप्रधा न जाता अहं गृहे किमपि चिकित्सा दत्तवान् तत् फलप्रधा न भवति अतः अतः एकनिमिषम् अतः पशुवैद्यः द्रष्टव्यः अभवत् अतः Uh, पशुवैद्यम् अहं uh, uh, पशुवैद्यः एव uh, तस्य ऐ uh, मीन् I mean, तस वृषभस्य uh, चिकित्सा कर्तुं शक्यते इति uh, mm -hmm. सः उक्तवान् पशुचिकित्सालयः mm -hmm. अस्ति दूरे uh, mm -hmm. पशुचिकित्सालदूरम् पा, एव भवति महता कष्टेन मया इत्युक्ते आङ्ग्लभाषायां पशुवैद्य इत्युक्ते पशु ते, पशुवैद्यन्ते ऐ मीन् डाक्टर् आफ् एनिमल्स्यन् डाक्टर्शुचित्साति महता कष्टेन मया वृषभस्य उपचारः कृतः अहं बहु कष्टम् अनुभव्य वृषभस्य चिकित्सा कृतवान् बह, ष्टम् अनुभूत्य ऋषभस्य उपचारः कृतवान् सम्यक् अग्रिमे इदानीम् इदानीं वृषभः स्वास्थ्य स्वास्थ्यलाभं प्राप्नुवन् अस्ति इदानीं वृषभः सम्यक् अस्ति स्वस्य ऐ मीन् चिकित्सा अनन्तरं स्वस्थं भवति अति एतस्मिन् कार्ये नितरां hmm. व्यावृतः अहं प्रवचनकाले उपस्थातुं न शक्तवान् इति अतः hmm. एव अहं hmm. प्रवचनकाले उपस्थातुं न शक्यते इति hmm. ऋषिक ऋषिकः उक्तवान् hmm. सः कुत्र तस्मिन् समये यदा hmm. यदा भगवान् गौतम्बुद्ध उपदेशम् उपदिष्टवान् राधा गतवान् तदा बुद्धः जनान् उद्दिश्य अवदत् मया प्राणिदया कर्मनिष्ठा च प्राधान्येन बोधिता तदा बुद्ध उक्तवान् कृषिकः प्राणिदया कर्म कथं करणीयम् इति ते बोधितः ते जानी अब प्राणी जानीत प्राणिदया कर्म कथं करणीयम् इति जानीतः कर्मनिष्ठा निष्ठा इत्युक्ते भवती किं वक्तुं शक्नोति निष्ठा इत्युक्ते निष्ठाके मम निष्ठा अस्ति इत्युक्ते अहं श्रद्धया पठनं करोमि श्रद्धया कथं यदा अहं सम्यक् पठनं करोमि सम्यक् अङ्कान् प्राप्नोमि इति मम निष्ठा इति अत्र वक्तुं शक्नुमः वयं कर्मकार्ये निष्ठा इति प्राणिदया इत्युक्ते प्राणिदया इत्युक्ते अयं तु तस्यैव तत्त्वस्य आचरणाय प्रवृत्तः आसीत् अहं तेषाम् आचरणं प्रवृत्तं करोमि इति किं कर्म आदौ किं कर्म अनन्तरम् इत्यस्य निर्णये विवेचनशक्तिः अपेक्ष्यते किं कर्म इत्युक्ते तत्र प्रथमतः किं कर्म अनन्तरं किं कर्म आदौ किं कर्म अनन्तरं किं कर्म प्रथमतया आचरणीयं किं कर्म अनन्तरम् आचरणीयम् इत्यस्य निर्णये विवेचनशक्तिः अपेक्षते विवेचनशक्तिः विवेकशक्तिः अबिलिटि टु डिस्टिङ्ग्विश् बिट्वीन् रैट् एण्ड् राङ्ग् अहम् इदानीं किं करोमि किं कर्म अपेक्षते किम् अनन्तरं करोमि इदानीं मम कर्तव्यम् इदानीम् अहम् अद्य वर्गं मम कर्तव्यदृष्ट्या किम् अस्ति अत्र जनान् तत्र छात्रान् ये छात्राः सम्मिलिताः सन्ति अत्र तेषां कृते मम पाठनस्य कार्यम् आदौ इदानीम् अहं दूरध्वनिं स्वीकरोमि चेत् वरं भवति वा नूरदूरध्वनिं तत्र दूरध्वनि आगतः परन्तु तत्र अहं रिजेक्ट् कृतवती किं कर्म आदौ आरम्भे प्रथमतः किं mm -hmm. कर्म अनन्तरं करणीयं नित्यस्य mm -hmm. निर्णये विवेचनशक्ति सम्यक् विवेचनं विवेकबुद्ध्या डिस्टिङ्ग्विश् mm -hmm. रैटर् yeah. yeah. शक्ति अपेक्षते mm -hmm. okay. अग्रिमे अग्रिमे पठतु अयम् अयं यदि वृषभचिकित् चिकित्सायाम् चिकित्स अन्यं mm -hmm. नियोज्य प्रवचनस्थले उपस्थितः hmm. अभविष्यत् तर्हि समुचित चिकित्सयाः अप्राप्त्यम् अस्य वृषभः प्राणान् अत्यक्ष्यत् तत्रापि hmm. hmm. यदा वृष्टिः न अभविष्यत् यदा वृष्टिः अभविष्यत् तदा तत् तादृशी रचना अस्ति हा पश्यामः अयं यदि वृषभचिकित्सायाम् अन्यं नियोज्य प्रवचनस्थले उपस्थितः अभविष्यत् यदि तर्हि यदा तदा यावत् यावत् यत्तत् यदि एफ् एफ् तत्र वृषभचिकित्सायाम् अन्यं नियोज्य तेन अन्यस्य नियुक्तिं कृत्वा सः Yeah, pravachanam, then the चेत् would have died. Yeah. तर्हि समुचितचिकित्साया अप्राप्त्या अस्य वृषभः प्राणान् अत्यक्षत् सम्यक् किन्तु तत्र प्राणिजनाः प्राणिनः वक्तुं न शक्नुवन्ति खलु तत् वृषभः तस्य वृषभः अस्ति कृषकस्य वृषभः सः एव सम्यक् उपचारं कर्तुं शक्नुमः अतः तस्मिन् समये वृषकस्य एव योजनां तत्र भवेत् इति अन्यस्य न गन्तव्यं प्रथमतः करणीयम् अनन्तरं प्रवचनश्रवणं तत्तु भवेत् परन्तु तत् अनन्तरं भवेत् अग्रिमम् अग्रिमम् अन्तिमं वाक्यं पठतु स्वकर्तव्यस्य प्राधान्यं चिन्तितवता अनेन mm. उचितम् एव आचरितम् इति mm. तस्य कर्तव्यस्य प्राधान्यं दत्त्वा ते उचितं कार्यं कृतवान् इति mm. सम्यक् सः सः सम्यक् विवेक विवेचनशक्तिः विवेकबुद्धि mm -hmm. आचरितवान् तेन सः स्वयं निर्णयं स्वीकृतवान् प्रथमतः तु अहं वृषभस्य उपचारान् करिष्यामि अनन्तरं प्रवचनस्य कृते आगमिष्यामि इति स्वकर्तव्यस्य प्राधान्यम् एकस्मिन् क्षणे मम कर्तव्यं किम् प्राधान्य प्रधानतया विचिन्त्य सः उचितम् एव आचरितम् पश्यन्तु सर्वे कर्माणि हा तत्र कथम् उचितं कर्मम् इति यतो हि तत्र मनुष्यस्य सम्मुखम् अनेकानि कर्माणि तत्र आगच्छन्ति परन्तु एकस्मिन् क्षणे एकं कर्म एव तत्परताया वा तत्परता पूर्वक कर्तुं वयं समर्थः कस्य कार्यं किं का किं कार्यम् आदौ भविष्यति किं कार्यम् अनन्तरं तस्य विषये विवेचनशक्तिः अस्माभिः करणीयः इति कथा वदति इदानीं गीतासोपानम् इति अस्माकं विषयः गीतायामपि hmm. कर्मविषय आधारीकृत्य बहवः श्लोकाः सन्ति भगवान् वदति कर्मणि एव तव अधिकार अकर्मणि mm -hmm. अकर्मणि इत्युक्ते कर्मस्य त्यजनं मा भवेत् इति अकर्मणि mm. सङ्ग मास्तु इति श्लोकः अगस्टमोदयः भवान् सम्यक् mm -hmm. अगस्टमहोदये भवान् स्मरति वा कर्मणि एव तव अधिकारः फलेषु नास्ति मा कर्म कर्मफलहेतुः सङ्गहति वा अस्तु अहम् अस्तु अस्तु अत्र पश्यामः तत् श्रोतः अस्माकं पुरतः आगच्छति इदानीं पठति वा पठतु कर्मण्येव अधिकार तत् ब्लेक् मध्ये यत् अस्ति कृष्णवर्णकर्मण्येवाधिकारस्ते तत् पठतु महोदय अनन्तरम् अर्थपत्रः अन्नन महोदय तत्र अवस्तु महोदय कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कदा पठति हा कर्मण्येव अधिकारास्ते hmm. मा फले शुकदाञ्चनां मा कर्मफले तु कर्मफले तु भुः भु, भु, hmm. माते सङ्ग अस्तु माते मते सङ्गस्तु तत्र कथम् मा कर्मफलहेतुर्भू माते सङ्गोस्वणि इति पुनः एकवारं पठति वा चेत् uh, कर्म्येवधिरस्ते भगवद्गीत हा तत्र किं भवति अहमेकं वदामि अत्र बहवः सर्वे न केवल तत्र अगोष्ठमहोदय अस्माकं मनसि किम् आगच्छति यदा सन्धिविग्रह कृत्वा पठामि चेत् अवगमनार्थं सुलभता वर्तते परंतु तत्र भगवता वाचा अस्ति भगवता वाणी अस्ति तत्र ब्रेक् कृत्वा विग्रह कृत्वा श्लोकं यदा वयं श्लोकं पठामः चेत् तदा न भवेत् इति तज्ञैः उचितमस्ति हा इत्युक्ते तत्र तज्ञैः तत्र सूचना अस्ति तत्र ब्रेक् कृत्वा मा पठन्तु इति श्लोकस्य पठनम् अवगमनार्थं तु सन्धिविग्रहः भवेत् अनन्तरं तत्र पदानुसारेण विग्रहः भवेत् परन्तु श्लोकपठनं तत्र छन्दबद्धरचना छंदबद्धरचना अस्ंद अवधान मन भवि पूरे तो अहम यहाँ उथ कर्मणव अ फलेशु कदन मेतु भू मा, मा ते संग अस्तु कर्मण एव परु छंदबद्धरचना भव कर्मण्यवास्ते मू कर्मफल हेतु माते सङ्गोस्त्वकर्मणि एवं भवे इति एकः विचारः इदानीम् अवस्थ्यमहोदय तत्र रक्तवर्णीय तत सन्धिविग्रह कृत्वा दत्तमस्ति तत् पठतिवा वा कर्मणि एव एतत् पठतिवा। वा कर्मणि एव <स्तितितितिति> अधिकारः ते मालेषु कदाचन मात कर्म हुँ, हुँ, हुँ, माते कर्मणि एव अधिकार ते इति तव एतस्य वैकल्पिकरूपः तत्र भगवद्गीतायां बहुषु स्थलेषु तद् दृश्यते ते नः तत् वैकल्प्यरूपाणि तत् अनन्तरं वयं पठामः Well, uh, no, no. महोदय तव इत्युक्ते विभक्तिविषये जानाति वा तव इत्युक्ते न न तव इत्युक्ते विभक्तिः प्रथमा वा द्वितीया वा स्मरति वा मम तव उत्तमम् उत्तमम् उत्तमं तव कर्मणि एव अधिकारः कर्मणि एव तव अधिकारः तव कर्मणि इत्युक्ते कर्माचरणे एव तव अधिकारः तव अधिकार कर्माचरणे एव अस्ति कर्मणः आचरणे एव अस्ति तव अधिकार मा फलेषु कदाचन मा फलेषु फलविषये तव अधिकारः नास्ति फलम् इत्युक्ते भवान् जानाति वा ओगस्ट् महोदय फलम् इत्युक्ते किम् सम्यक् उत्तमं फ्रूट्स् आफ् द एक्षन् तत्र तव अधिकारः नास्ति फलेषु सप्तमी कर्मणि सप्तमी गृहे स्थले तत्र कर्मणि इति सप्तमी फलेषु अपि सप्तमी तव अधिकार केवल युर् युयर् अधिकार अधिकार रिस्ट्रिक्टेड् एव इति शब्द ए शब्देन के कः बोधः रिस्ट्रिक्टेड् तु कर्माचरणे एव कर्तव्यपालने प्राप्तकर्तव्यस्य पालने एव कर्तव्यकर्मणि एव तव अधिकार फलेषु तव अधिकार फलविषये तव अधिकारः नास्ति अनन्तरं भगवान् वदति मा कर्मफलहेतुः भुः मा कर्मफलहेतुः भुः इत्युक्ते कर्मफलहेतुः मा भूः तत्र भूः इति अस्ति लुङ्लकार किञ्चित् भिन्न भिन्नप्रकारेण रूपाणि सन्ति परन्तु तत्र अस्माभिः एतत् मा कर्मफलहेतुः भुः इत्युक्ते त्वम् कर्मणः फलस्य अपेक्षां मा कुरु कर्मफलहेतु अस्तु इदानीम् अहम् एतत् कार्यं करोमि मम लाभः कः यदि लाभः अस्ति लाभं प्राप्स्यामि तदा एव कार्यं करिष्यामि इति कर्मफलहेतु एतत् मा भवेत् कार्य आचरणं कार्यस्य आचरणं प्राप्तकर्तव्यस्य पालनम् एव करणीयं मा कर्मफलहेतु भू मा ते सङ्गः मा ते सङ्गः अस्तु अकर्मणि एक एकवारं पश्यतु मा ते ते इत्युक्ते तव संगह, संगह इत्युक्ते अवश्यं महोदय संगह इत्युक्ते जानाति वा सङ्गः इत्युक्ते किम् सम्यक् सङ्ग अभिलाषा आसक्ति अटेच्मेण्ट् बै यु सेङ्ग् मा माते सङ्गः अस्तु अकर्मणि कर्मणः अनाचरणे अस्तु तत्र मम मनसि शङ्का फलं प्राप्स्यते वानवा, न कार्यमेव न करोमि फलविषये मम चिन्ता अस्ति अहं कार्यमेव त्यजामि तत् न भवेत् यदा कृषकः वृषभस्य विषये यदा किमपि तत्र विपरीततया भविष्यति वृषभः जीवनं तव तव न प्राप्नोति तदा कार्यमेव न करणीयमिति अस्ति वा इति नास्ति तव सङ्गः तव अभिलाषा अकर्मणि अपि न भवेत् अकर्मणि तव सङ्गः मास्तु कर्मणि अधिकार तथैव अकर्मणि अपि अधिकारः अस्ति कर्मत्यजनं तु वयं त्यक्तुं शक्नुमः परन्तु भगवता ते तव अकर्मणि सङ्ग मास्तु इति वदति अकर्मणि सङ्गः मास्तु अनाचारणे अपि तव अधिकारः अस्ति परन्तु अनाचारणे तव अभिलाषः मा भवेद् कर्मणः अनाचरणं न भवेत् कर्मफलकाङ्क्षी अपि मा भवतु इति भगवान् वदति फलापेक्षया कर्म कुर्वन् तत् फले आत्मानम् हेतुं मा कुरु इति फलापेक्षया तदेव चिन्तनम् इति मा कुरु इति वदति सम्यक् वा डु नाट् गेट् इण्डर्जिन् अकर्म निष्क्रियता कार्यम् एव न करणीयं तत् मा भवेत् इति भगवान् वदति स्पष्टं वा स्पष्टमस्ति वा स्पष्टमस्ति वदन् स्पष्टं <clears throat> अस्माकम् अन्तिमः वि अन्तिमः विषय इत्युक्ते भवन्तः सर्वे वदन्ति कथा श्लोकस्य विषये एकमेकं हा चिन्तयतु वदन्तु प्रथमतः तु अम्बिकापतिमहोदय वदति वा आं सः किञ्चित् अकर्म अकर्मणि uh, uh, अपेक्षया मास्तु कर्म mm -hmm. uh, कर्मणि uh, एव uh, mm -hmm. फल uh, फल अपेक्षया न फल mm. अपेक्षया विना कर्माचरणं सर्वे करोतु सर्वे कुर्वन्तु इति अस्ति सम्यक् उत्तममस्ति उत्तमम् mm. अनन्तरं कन्नान् भगिनी वदति वा स्वशब्दैः कथायाः विषये अपि भवन्तः सर्वे वक्तुं शक्नुमः शक्नुवन्ति सर्वे कथायाः विषये अपि भगिनी भगिनी अहं न जानामि न जानामि न अवगतं वा जयन्ती सर्या पुनः जयन्ती बेनी स्वस्य भाषाया वक्तुं न शक्यते इति उक् वदति आङ्ग्लभाषायां वदति वा आङ्ग्लभाषायां वदति वा किञ्चित् क्लेशः अभवत् इति उक्तवती कथायाम् अन्यत् ना ज्ञातुं न शक्यते इति अस्तु अस्तु एकवारम् एकवारं रेकार्डिङ्ग् श्रुणोतु एकवारं पठतु अनन्तरं वदतु अस्तु चिन्ता मास्तु अनन्तरं भारतमहोदय वदति वा भारतमहोदय वदतु कथायां रा कथायाः विषये श्लोकस्य विषये स्वशब्दै वदतु प्राणिदया प्राधान्यः प्राधान्य प्राधान्यम् प्राधान्यम् कार्यस्य प्राधान्यं कथं करणीयम् कर्मणिष्ठा प्राणितया भूतदया प्राणिदया तत् प्रथमम् आचरणीयम् प्रथमम् आचरणीयम् <laughs> प्राप्तकर्तव्यस्य पालने एव अस्माकम् अधिकारः अस्ति अस्माकम् अधिकारः कुत्र नास्ति महोदय एवं चिन्तनं भवति वा अहम् एतत् कर्म करोमि एतत् कार्यं करोमि अनन्तरम् एषः मम लाभः भवेत् इति चिन्तनं योग्यं वा इत्युक्ते फल अपेक्षया कार्यं मा करोतु इति वदति सत्यं खलु सत्यं सत्यं धन्यवादः अस्तु वीणा भगिनी भवती वदति meena bagini hai parami bagini ha um asmakam har asmakam karya um we should have full concentration ha <laughs> oh. and uh, do it properly with uh, with with shraddha श्रद्धया कार्यं कुर्वन्तु श्रद्धया वित् श्रद्धा श्रद्धया तृतीया आगच्छति खलु मालया गीतया तथैव श्रद्धया कार्यं कुर्वन्तु तथा तस्य कार्यं कार्यस्य अपेक्षा कार्यस्य मास्तु फला फलापेक्षा फलस्य अपेक्षा फलापेक्षया कार्यं मा करोतु इति सम्यक् धन्यवादः भगिनि धन्यवादः राधा भगिनी भवती वदति वा आं भगिनि अहं फलमपेक्षया कर्म न करोमि षकः तस्य कर्म समीचीनं जानाति श्रद्धा वृषभविषये तत्कारणं ते वृषभस्य चिकित्सा बुद्धस्य कार्यक्रम न गच्छति उत्तमम् उत्तमं सः सम्यक् जानाति मम पुरतः बहुनी कर्मानी कर्माणि सन्ति hmm. परन्तु मम कर्तव्यकर्माणि कानि सः जानाति तस्य पालने एव मनुष्यस्य सफलता hmm. कर्तव्यकर्माणि hmm. पालनीयानि इति hmm. उत्तमम् उत्तमं वारिवू hmm. भगिनी वक्तुम् इच्छति वा बारीवू भगिनी अस्ति वा हा वदति वा न श्रूयते भगिनी न श्रूयते मया श्यामला भगिनी भवती वदति वा किं सा उक्तवती तमिळ् वक्तुं तमिल् भाषामेव वक्तुं शक्यते किन्तु संस्कृते अहं न वक्तुं शक्यते इति वदतु एवं वा तत् मया तामिलभाषा पठनीया <laughs> भवती एव पाठयतु <पांथा> <laughs> भवती पाठयतु <पांथा यो> <laughs> अहं सज्जामि श्यामला भगिनी भवती वदति वा श्यामला भगिनी इन् कला अपेक्षया फलस्य प्राप्ति भवे, तदा एव करोमि न चेत् न करोमि इति चिन्तनं मा भवेत् इति सिम्पल् थिङ्ग् अस्तु जयन्ति भगिनी वदतु कथाया विषये श्लोकस्य विषये यत्किमपि इच्छति चेत् वदतु आम् यदि कर्म आचरणं कृत्वा वयं मोक्षम् अपि गन्तुं शक्यते फलस्य अपेक्षणं कृत्वा यदि uh, अस्माकं पूर्वाः उक्तवन्तः तद् अहम् आचरणं कर् कर्तुं शक्यते चेत् ऐ uh, मीन् I mean, नूतनतया किमपि कर्तुं न शक्यते uh, mm. नूतनतया किमपि न करणीयं uh, mm. पूर्वाः यद्यपि आचरणं कुर्वन्तः तदेव वयमपि आचरणं करणीयं का, का, चेत् अस्माकं जीवनं सम्यक् भवति इति मम चिन्तना यत् उदाहरणार्थम् एकश्लोकमपि वक्तुं शक् शक्यते यत् जनकादयः अपि कर्मयोगं कृत्वा एव मोक्षमपि प्राप्तवन्तः यद्यचरति श्रेष्ठः तद् देवतरो जनः तत् तयत् प्रमाणं कृते लोकस्ततनु इति श्लोक रूपेण भगवान् उक्तवान् उक्तवान् खलु तावदेव सत्यं सत्यम् उत्तमम् अस्ति उत्तमम् उत्तम तथैव द्वितीय अध्याये अस्ति वा तृतीयाध्याये एषः श्लोकः तृतीयाध्याये तृतीया सत्यं सत्यं सत्यं कर्म कर्म आचरणं तत् अध्याये तु अध्याये कर्म कर्मकार्यं वक्त्वा उक्त्वा अनन्तरं तस्य विवरणमपि कृतवान् खलु भगव सत्यं सत्यं उत्तमम् उत्तममस्ति धन्यवादः जनाः पि तत्र इतोपि वक्तुम् इच्छति चेत् वदन्तु कृपया एकवारं तु सर्वे उक्तवन्तः परन्तु पुनः किमपि मनसि आगच्छति चेत् वदन्तु सर्वे औगस्ट् महोदय इच्छति वा भारतमहोदय अत्र अत्र एकवाक्यम् अहं योजनं कर्तुं शक्यते भगवान् स्वयमपि उक्तवान् खलु कर्म मया किमपि करणीयम् इति किमपि नास्ति परन्तु वयं करोमि खलु इति भगवान् उक्तवान् किल उक्तवान् तदपि मनसि भवति कार्यं भगवतः यदा यदा धर्मस्य ग्लाहे तत् कार्यं भगवतः कार्यम् भगवत् कार्यमस्ति अतः सः अवतरति कार्यं नाम वार्ता अस्ति कर्तव्यं त्रिशु लोकेषु किञ्चन प्राप्तव्यं वार्ता एव च कर्मणि अपि स्वयमपि भगवान् उक्तवान् खलु उक्तवान् सत्यं <laughs> सत्यं सत्यम् उत्तममस्ति उत्तममस्ति सो अस्मा अस्माभिः किं करणीयमस्ति साम्प्रत संस्कृतपठनम् तदस्माकं कार्यं तत् वयं सर्वे मिलित्वा कुर्मः इति विचारया करणीयम् इति योग्यं खलु इदानीं कथा प्रेषयिष्यामि वयम् इदानीं समापयामः अस्तु धन्यवाद भगिनि अम्बिकापतिमहोदय प्रार्थना वदति वा आम् भगिनि पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् Sí, sí.